म् अस्मे रयम् विधारय विभो मदे सहसृणम् पुरुवसो विवक्षसे त्वाम् यज्ञेभिरुक्षैरुगाहव्ये भी भीरीमहे सतीपते सतीनाम् भी विभो मदे श्रेष्ठम् मो धेहिवार्यम् विवक्षसे बृहस्पतिर्वार्या नामसी रथ्रस्य चोदिता इन्द्रस्तोत्रीर्णामापिता विभो मते द्विषो नः पाह्यम् हासो विवक्षसे इमम् चक्रामाया विना समीचीनिरमञ्सकम् विमदे न यदीर्वितानासक्त्या निरमञ्सकम् सेदेवा कृपन्त समीच्यो निष्पतम् चोह नासत्यावब्रुवम् देवाः पुनरावाहतादिति मधुमन्मे पराजनम् मधुमत्पुनराजानम् आ नो देवा देवता यायुवम् मधुमतस्कृतम्णा अपि वातयमनो दक्षमुत कृतुम् जो मदे से से। मदे दे सख्ये अन्धसोऽ विभोमधेरणभो न ये विवक्षसे रजिः प्रशस्तास दे विश्वेषु सोमधामासु अतिधामा इमे मम विभोम देवि तिष्ठन् देवसु विवक्षसे उत मृदामि सोम ते प्राहम् मीनामि अथापि देव शूनवे वि भोमदे मृदा नो अभिचिद्वधा विवक्षे समो प्रयञ्जीयः सर्गासोभतान्न कृतम् न सोम जीवसे वि भोमदे धारया चमसान्नेव विवक्षसे भवत्ये सोमशक्तिभिर्णिकामासोगृङ्गिरे वृत्सस्य धीरास्तपसो विभो मदे व्रजम् गोमन्दमश्विनम् विवक्षसे व्रजुम्नः सोम रक्षसि पुरुत्राभिष्ठीतम् जगत् समाग्रेणोषि जीवसे विभो मदे विश्वासम्भ्यम्भुवाना विवक्षसे त्वम् नः सोम विश्वतो गोपादाभ्यो भव सेज राजन्नपश्रुतोऽपि भौमधेमानो दुःशंसजीषता विवक्षसे पुं नः सोम सुक्रतुर्वजोधेयायजाग्रिहि क्षेत्रवित्तरोमनोषोऽभिौमदेह्यम् दासोऽपि वक्षसे तुन्नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा यत्सीम्भवम् देशमिचे वि वो मदे युध्यमासोकसातौ विवक्षसे अयम् घसतु गोमधिङ्ग्रस्य वर्धतः प्रियः अयम् कक्षी वातो महो विभो मदे मतिम् विप्रस्य वर्धयद्विवक्षसे अयम् सप्तभ्य आवरम् विभो मते प्रान्ध्रम् सोणम् च तारिषद्विवक्षसे प्रह्यच्छामनीषा स्वाराजम् दीनियुताःस्रा नियुद्रतः पुरुषाः विष्णुमाहीनः यस्य त्यन्महित्वम् वाताप्यमयम् जनाः विप्रावम् स्येतिभिश्चिकेतसुष्टुतीनाम् स वेदसुष्टीनामिन्दुर्नपूषा वृषा अविप्सुरपृषायति व्रजम् आपृषायति मंसी महित्वा भजमस्माकम् देवपूषन् मतीनाम् दसाधनम् विप्राणाम् दाधवम् प्रत्यर्थिर्यज्ञानामश्वहयोरथानाम् सजो मनुर्हितो विप्रस्य यावयत्सखः आधीर्यमानाजापतिः शुचाजाश्च शुचस्य च वासो वाजो वी नामावासाम् सिमम् रेजते हि नो वाजानाम् पति ऋणः पुष्टीनाम् सखाः रश्मस्रो हर्यरोदो धो दुर्धाजो अदाभ्यः आदेरथस्य पूर्णम् विश्वस्याथिनः सखा समो जानपुच्छुतः अस्माकमूर्जारथम् पुरा विष्णुमाहीनः भुवद्बाजानाम् हृदयिमम् न शृणवद्धवम् असत्सु मे जरितः साभिवेगो यः सन्पते यजमानाय महमस्मि प्रहन्ता सद्यदृथम् मृगनायन्त माभुम् यदि अहम् विषये सन्नयान्यदेवयो तन्वा आसोसुजानान् अमादेतुम्भम् ऋषभम् पशानि तीव्रम् सुतम् पञ्चदशम्निषिञ्चम् मे दयिब्रवीत्य देवयोन्समरणे जघन्वाणि यदाग्यः समर न मृगावदादिद्ध मे वृषभा प्रब्रुवन्ति यदर्ज्ञादेषु वृजने श्वासंविश्वे सतो मघवा महासन्ने जिगामिवे क्षेमासन्तम् क्षीणाम् पर्वते नवाभुमाम् पादगृह्य तेन पर्वता न पर्वतासोजदहम्बनस्ये मम स्वनाक्रिधुकर्मा भजात जेवेदद्योन्निरणः समेजात् दर्शन्वत्रा श्रुतपान् अनिन्द्रान् बाहु क्षतः सर्वे पच्यमानान् दृशम् वा निदुःसखाय मध्योऽन्वेषु पवयोपमृत्युः अपूर्वौ क्षीर्व्यो आयुरानर्दर्शन्नु पूर्वो अपर्वो ेवहस्ते परितम् न भूतो जो अस्य भारे रजसो विभेष रभोजवम् रजूता अर्यो अक्षन्तापश्यम् सह गोपाश्चरन्तीः कवायदर्यो अभिदः समायम् य दासुस्वपतिष्ठन्त जाते संलद्वयम् जपसादो जनानामहम् जपात पूर्वज्रेः अन्तः त्रायुक्तो वसामिच्छादोपयुक्तम् युमजद्वन्वान् अत्रे तु मे मांसे सत्यमुक्तम् युगाच्चयच्चतुष्पात्संसृजानि श्रीभिर्योऽत्र वृषा नृतज्ञात युद्धो अस्य विभाजा निवेदाः यस्या रक्षादो हिकादात्वा सहस्ताम् विद्वाम् अभिमन्याते अन्धा मेनिम् रथितम् मोचा तेजगीम् वहा तेजगीम्भावरेजाते यजीयो मर्यतो वधूयोः परिप्रीतापन्यसा वार्येण भद्रावधोद्भवति यत् सुके सा स्वयम् सामित्रम् वा नुते जनेशित् पातो जागारप्रत्यम् च मत्तिशीर्षादिरप्रति दधौ गृहन्नच्छायो आपदासो हर्वा तस्थो माता विषीतो अत्यगर्भाः अन्यस्या वत्संवेहती मीमायगया भुवानिदधेधेऽनुरोधाः सप्तवीरासो अधरादुरायन् नष्टोत्तरात् तात्समजग्हन्ते पश्चादास्य भिमन्त आयन्त स प्रानुवितीरम् व्यस्नाः दशानामेकम् कपिलम् समानम् तम् हिन्वन्ति कृतवेपार्याय गर्भम् मादासुधीरम् भक्षणा स्ववेनन्तम् तुषयन्ती जीवानम् भेषमपचन्त वीरान्योक्ता रक्षा नो जीवासन् राधनुम् रहति मत्स अन्तः पवित्रवन्ता जनतः पुनन्ताक्रोनादो विश्वम् चायन् पचाति नेमो न पक्षदर्धः अयम् मे देवस्य विदा ददाह्रवन्नेत्सत्विरन् अपश्यङ्ग्रामम् वहमानमाराधक्रया स्वदया वर्तमानम् शिरक्त प्रयुगाजनानाम् सद्यस्य स्ना प्रविना नो न युक्तौ मोषु प्रसे धीर्मुहुर्न्ना मन्धिरस्य विना सन्त्यर्थम्भूवान् अयम् यो भज्रः पुरुधा विरुद्धो सूर्यस्य बृहतः पुरीषात् श्रवजितेन परो अन्यदस्ति वृक्षे वृक्षे नियतामीलद्यौस्ततो वयप्रपतान् पूरुषादाः अथेदम् विश्वम्भुवनम्भयात इन्द्राय सुन्ददृषाय च शिक्षति दे। देवानाम् माने प्रथमा तिष्ठन्धत्रादेशामुपरामुदायन् त्रयस्तपन्दिर्थिवीनानुपाद्वा गुरुभूकम् वहतः पुरीषम् सादे जीवातु रुदतस्य विद्धिमास्मै तादृगपूहः स मर्ये आविश्व भुसन्धमातुरस्य निर्णयो न मुच्यते अन्यो अरिरा जगाम मम मेदहस्वशूरो जगाम ीयाद्धारापुरसोमम् पदीयात् स्वासितः पुनरस्तम् जगायात् सर्वभस्जग्मसृम् गोपक्ष्पम् तस्थौ वरी बन्धापृथिव्याः विश्वेश्वेणम् हृदनेष्पामिजो मे अर्धीनाथे वन्दिना इन्द्रतूयाम् सुन्दन्दि सोमान् विराजित्वमेषाम् अचन्दि वृषभाम् अर्चितेषाम् वृक्षेण जन्मधवन् भूयमानः इदम् सुमे चरितराजीविद्ध्यप्रदीपम् सामम् हद्यो वहन्ति ोपासः सिंहम् वृत्यम् जामत्सा क्रोष्टावहम् निरातक्तकक्षात् कथा तदेतदहमाचीदेतम् दे। व्यत्सस्तपाकस्तवसो मनीषाम् यमद्धं विद्वाङ्गथा विभो चोयमर्थम् एवाहि माम् तपसम् वर्धयन्ति दिवस्मिन्मे बृहदगुप्तधाधूः पुरो सखसायुषीता शात्रम् विभाजनीता च जानेवाहि माम् तपसम् यज्ञरुम् कर्मम् कर्मन्द्रदेवाः अधीम् व्रत्रम् वर्जेण मन्दसानोपव्रजम् महिना दासुषेवम् देवासायन् परसूङ्गबिभ्राह्मना विष्टन्तो अभिराजन्षद्वा अन्धदो भक्षणा सुयत्राकृपेरमनुदहन्ति सह क्षणम् प्रत्यन्तम् जगाराद्र्यम् लोके दव्यभेदमारात् मृहन्तम् चिदिहतेरम् दयानिवयद्वत्सो वृषभम् सुषुमानः सुवर्णयित्थानखमाशीषाजावरुद्धः परिवदम् न सिंहः निरुद्धस्तिन्वयिषस्तर्ष्यावान् गोधा तस्मा अजसम् कर्षदेतत् एभ्यो गोधा अयसम् कर्षदेतद्ये ब्रह्म प्रतिपीयन्त्यन्नैः शिवमुक्ष्मो रसृष्टाम् खादन्ति स्वयम्बलानिरम्भसृणानाः एते समे विश्व समे अभूवन्देहिन्विरे तन्वा अस्तु मुक्तैः नो मा हिमाजान्ति विश्ववो दधिषे न मम वीरः वनेन ेन वायोन्यधायिताकम् शुचिर्भान् सोमो भुरणावजीगः यस्येदिन्द्रः पुलदिनेः शुभोदापामान् न ते अस्यामृषधप्रापालस्यातौ स्यामृतामस्य गृणाम् णुत्रिशोकस्य तमा वा हेन्कुत्से धनधोजो असत्सवान् हस्ते मद इन्द्ररञ्जयो भूरो गिरो अभ्यो उग्रोविधा वार्वा गुहा मामनीषा आत्त्वा आसक्त्यामुपमम् राधो अन्नैः ्रेन्द्रयाधियागन् सत्यपूरुगाय भृत्यान्ने समस्यैनम् मेगाः प्रेरायशूरो अर्थम् न पारम् जे अस्य कामम् जनिराजीभक्मन् गिरश्च ये देविपूर्वेर्न इन्द्रप्रतिशिक्षम् जन्मैः मा तेऽनुते सुमी ते इन्द्रपूर्वेऽर्यौर्मध्मना पृथिवी काव्येन पराजते धृतवन्तः सुदास स्वात्मन् भवन्तु पीतजे मधूनि आमथो अस्माभिजर्णमत्रमिन्द्रायपूर्णम् दहि शतराधाः ृधे परी मन्नाभिधिव्याभिकृत्वा नर्यः पौंसैश्च यान इन्द्रप्रदानाः सोजास्मै यतम् ते सख्याय पूर्वीः आस्परसन्न प्रदानासु तिष्ठयम् भद्रयासु मत्या चोदयासे त्रा ब्रह्मणे घातुरे तपो अच्छामनसोनप्रयुक्ति महीम् मित्रस्य मरोनस्य धासुम् प्रस्रया शेरीरथासु भिक्तिम् अध्वर्यवो हविष्मम् तो हि भूताच्छावलीतो सतीरु सन्तः अवजाे अरुणः सो वर्णस्तमाश्चमोऽर्मिमध्यासु अध्वर्यभोपजीता समुद्रपान्नपातम् भविषायजध्वम् स वोदभूर्मिमद्याम् तस्मै सोमं मधुमन्दम् सुनोत यो ह निध्वोदीतस्वा अन्तर्यम् विप्रा सलील ते अध्वरेषु ो धायाभिन्द्रो वा देहर्ष दे च कल्याणीभिर्युवतिभिर्न मर्यध्वर्यो अपो अच्छापरे हि यदा सिञ्चावोषाधिभि पुनिता देवेद्योने युवतयो न मन्द्रयदी मुसन्नेत्यच्छ सेवी द्वे देवीः योगो वृदाभ्योऽग्रम् यो मह्याभिहस्ते चत् स्मायिन्द्रामधो मन्दोर्मिन्दे प्रही नोतनापः अस्मै नोदमधो मन्दभूर्णिन्दोजो वत्स्यन्द्रभोमद्वत्साहपृष्ठवीज्यमध्वरे शापो देवनीनृताम्मे ुतामौसारम् न भोजनाम् परित्रिसन्तम् विकरम् तमुत्समम् आयुर्वेदीरधनुर्विहारा गोषयुभवनैरम् धनम् तेः विशेषनित्रेवानस्य पत्नी रघोवन्दस्व समृधस्य योनिः हिनोरा नो अध्वरम् देव यज्ञा ब्रह्म समचेधना ऋतस्य योगे विष्यद्वोदसृष्टिवरेर्भोधना स्मभ्यामापः ेव स्वकृतम् भद्रम् विभृता मृदम् च राजस्तभ पत्नी सरस्वती तद्विनते वयोधात् यदा समाजेभृतम् मृगाम् चिबिभ्राते मधूमि संविधाना इन्द्रायशोऽहं श्रोताम्भरन्तिध्वर्यवत्सारः दत्तनसोम्या सोपाम् न संविधानासहनाः यन्तीःर्यवस्तु मतेन्द्रायसो मम भूदु वस्तु यजा आम् स्वविश्वेभिस्तुरैन से च ते निर्वयम् सुषखाजो भवे मतरम् उदस्य श्रेयाम् सम्भक्षण्यात् सन्धास्तेन दस्वमुपायन्तु अभ्यानस्म सूर्यस्य सूर्यम् न वेदसो अमृता नाम भूम नित्यश्च गङ्गात्सवराजतमो भागस्मा बुदेवस्य विराजान भगो भागोभिरेव न जासो अस्मै चारूचनस्याल यम् सा भूयाबुधसा विवक्षाय द्रक्षु बन्धः समासा समाजन् अस्य श्रुतिम् च ऋर्विक्रमाणानश्रग्मा समुपायम् द्वाराः स्ये देहासुमृप्रसानाभवत् भूर्या भुवनागौ अस्य समीरासूरस्य योणौ समानः भरणे बिभ्रमणाः गौ सुरक्षायतो निष्टचक्षुः दीवानि पूर्वीरुषसो गोचरन्त परो नैकापरो अन्यतस्तु पृथ्वीम्भुवो यत्र वरु नो अद्य माभोग्निर्वणेन व्यसृष्टशोकम् ूत सद्यो अजमाभ्यति रभ्यते क्रीडत स्वोपा पुत्रो यतो पित्रोष्टसून्याम् गौ च कारयत्र वृच्छान् पुत्रकण्डम् द्विषतः पुत्रमापुरुतस्याबोधनमा दत्तवायि कृष्णायम् यत् सोम्यस्याम् इव्याणि रोचना पुरुष् हम् तिमुहुरध्वराम् उपतेष्वम् भव राजसाः पुत्रो यज्ज्ञानम् वित्रो रदीयति जापतिम् वहति भक्त्रुणा सुमत्पुम्ब यद्भद्रो वहतु माता न्न धेन माताजन्मर्योतस्य भूजाभिपानस्य सप्तधाः श्रुज्जनाः प्रवोच्छाहारितेको रुद्रेभिर्याधिदुर्वणीः जरापालेष्मृतेषु धावे परिवसि मधु गुणमत्सप्रमे देवानामृतबावाच इन्द्रो विद्वाङ्ग्वाच च क्रे नाहमध्ने ना अनुसृष्टा गा अक्षेत्रविक्षेत्रविधम् च भ्रात्स प्रैविक्षे त्रविधानुसृष्टः ते भद्रमनुशासनस्योतश्रुतिम् नृत्यञ्जशीलाः अद्य न प्राणे नमन्निमाः पीवृतो अजयम् मातुरूधाः मे नमापमायुवाः नम हे रन्वसु सुमनाः बभूव एतानि भद्राकारवणदतो मगानि ो मघवानस्व अस्त्वयम् रसो मृदयम् विहर्मि भद्रान्ना अपि वाचयमनाः ओ हरिः ओद्रे प्रयुतोजनानाम् वहा विश्वभूषणमन्तरेण दुःशासुरागादिघोष आसीत् सम्मासन् जितः सपत्नीर्नवे मतिः मूरो न शिश्रा जन्दिमाद्य स्तोतारम् ते सरकृतो ृजरा दस्य मा हरितो रथे द्विश्रोमहम् दिशाभिधा सवैः सहस्रदक्षिणे यस्य प्रस्वा दशो गिर उपमस्रवसत्वितो ङ्गमोचेः अधिपुत्रो मम स्मोम्रादिषेः अस्मि वन्दिता यामृतानामृतवामत्यानाम् व्रतम् सतात्मा सहजीवति तथा युजाविवाहावृते आवे ृहतो मादयन्त्य प्रवातेजाः सोमस्येवमौलपदस्य भक्षो विभीद गोजाग्रिब्रह्म च मत्सान् नमामिमे च न जीहीन एषा शिवासखिभ्य उतमख्यामासीत् रक्षस्याहमेकमरस्य हेतोरणम् व्रतामपजायामारूढम् ूरपजाचारो <देगतिस्वस्णूर्पाजाजारूना> नो विन्दते मद्भितारम् अश्वस्येव जरतोऽपस्य नाहम् विन्दामिकृतवस्य भोगम् अन्ये यायाम् परिवृषम् यस्य यस्यागृधद्वेदनेवाज्याक्षः माता भ्राता रजेन ब्रह्म जानी वो न जाता बद्धमेतम् यदातिध्येनेभिः पराशद्यो वा हि ये जेमि देवेषाम् न्य श्रुतम् सभामे लिखिताेष्यामीति धन्वासो जानस्य कामम् प्रति मेदधतः कृतानि अक्षायनम् गुजिनो नितोदिनो निकृत्वा नस्तप नास्तापैष्णवाः पुरवध्वासम् वृत्ता बृहा त्रिपञ्चासक्रीलतिवृाम् देवयैव सविता सत्यब्रह्म उग्रस्य जिह्मन्यवेनानमन्ते रागाजितेभ्यो न भयित्क्रीणोति नीचावर्तन्त उपरि स्फुरन्ति हस्तासो हस्तावन्तम् सहन्ते दिव्याङ्गारायिरिणेत्रा श्रीलाः सन्दो हृदयम् निर्दहन्ति जायाप्यते किमस्य हीना माता पुत्रस्य च रदक्त्वाश्विवाविद्यद्धोऽन्ये रामस्तमुपलक्तमेति श्रिमयम् दृष्ट्वाय गिलवम् दतापान्येषाम् जायाम् सुकृतम् जयोनिम् ओह्ने अश्वान्यसाम् दे बृहलप्रपाद योगसेनानीस्य राजा व्रातस्य प्रथमो बभूव धृतम् वदामि अक्षैर्माजी यत्कृत्तेन वस्वभुवन्यत्र जायातन्मे वितष्टे सविनाय वर्यः मित्रम् क्रेणध्वम् खलु नभितृष्णो निवो न वन्यर्विसतामरातिरन्यो बभ्रूणाम् पृथी तौन्वस्तु अबुद्ध्रबुद्धयिन्द्रावनयो ज्योतिर्भरन्दौषतो ज्योषिषु अनीद्यामापृथिवी चे सतामभोज्यादेवानामभावेणीमहे दिवस्पृथिम् यौरवावृणीमहे मातृन् सिन्धोन्पर्वताञ्चर्यनावतः अनाघास्त्वम् सूर्यमुजासमीमहे भद्रम् सो वस्तु भानो अद्याकृ नो अद्य पृथिवी अनाघसो महीत्रायताम् सुवि माता पुम् ज्यमघम् स्वस्या अग्निम् समिधानमीमहे यन्नश्रावमसु देव्यम् रेवत्सनिभ्यो रेवतीव्यच्छलो आरेमन्यम् दुर्विशत्तस्य धीमहि स्वस्या अग्निम् स विधानमीमहे यस्य रस्मै ज्योतिर्भीक्षिषो भद्रा न अद्य श्रे प्युचत स्वस्या महे अननैव भुटसाधरम् तु नभुरग्नयो जिगताम् ज्योतिरा जज्ञामश्विनाथो तु जिम् रथम् स्वस्या अग्निम् समिधानमीमहे श्रेष्ठम् अद्य स विधर्वरेण्यम् भागमासो वश इधासि राजो जत्रेन्द्रियणामुपब्रुवे स्वस्या अग्निम् समिधानमीमहे मातदृगस्य प्रवाचनम् देवानाम् जन्मनुष्यायि सस्रा अद्य धानमीमहे अद्य वर्षिरस्तरीम नाम योगे मन्मानः जीवहे. आदित्यानाम् सर्वाभूरन्यसि स्वस्या अग्निम् स विधानमीमहे आनो वरिहः स समादे बृहद्दिविदेवाङ्गीले साधया सप्तहोदृ इन्द्रम् मित्रम् वरुणम् साधये भगम् स्वस्या अग्निम् स विधानमीमहे दित्यागता सर्वदा दये वृदेन यज्ञमावता सजोषतः बृहस्पतिम् भूषणमश्विनाभम् स्वस्या अग्निम् समिधानमीमहे तन्नो देवायच्छद सुप्रवचनम् सब्दिरादिद्या सुहरम् नृपायम् श्वे लोकाय न जीवते स्वस्या अद्यमीमहे विद्य मरुतो विश्वभूते विश्वे भवन् वर्णयः समिद्धा विश्वे नो देवावसागमन्तु विश्ववस्त्वद्रवीवाजो अस्मे वासो ृशात्यम्भ योगो गो वीषेन वयस्य मित्रो स्यामदेव भुवे वरुदः पर्वताम् हवादित्या वा पृथिवी अपस्वाह योश्च न पृथिवी स प्रचेदस लतावारी रक्षतामम् ह्रासो स्वस्मान् अदिति मातापित्रूरस्य देवताः सर्वज्योतीरविकम्नाशीमहि तद्देवानाभो अद्यावेणीमहेन्नपरक्षाम् दिशे तदृष्भ्यम् निर्वेदिम् विश्वामत्रिणम् आदित्यम् सर्व मनुकामधीमहि तदेवानामवो अद्यावे नीमहेन्द्रोपरिहस्यभिहस्पतिः सामभिो अच्छतु सुप्रजेतम् जीव सेमन्म धीमहि तद्धेवानामवो अद्या वे नीमहे येतम् धृते ददेव रामभो अद्यालये सुखवमालोतम् गणम् पापकभृष्टम् सख्याय शम्भुवम् राजस्फोटम् सौ श्रीमहितद्देवानामो अद्यावृणीमहे अपाम्बेरम् दीवधन्यम्भरामहे देवाव्यम् सुभवामध्वरश्रियम् सुरस्मिन् सोममिन्द्रियम् तद्देवानामो अद्यावृणीमहे सने पतत्सु सनिता सनित्वायम् जीवा जीवपुत्रानागतः विश्वकेणो भरेनामो अद्यावृणीमहे ये श्राम्नो जति या से श्रृणोचनयत्वो देवा जीव हरे तत्र धातः ैत्रम् कृतम् नजिमद्वीरवजस्तद्देवानामो अद्या वृणीमहे महषद्यमाहता मा वृणीमहे वो देवानाम् बृहता मा नर्मणाम् चापसु वीरजा तम् न साहामहै तद्देवानामो अद्या वृणीमहे महो अग्ने स विधारश्च ब्रह्मण्या गामित्रे वरुणे स्वस्य श्रेष्ठे श्यामदविदुष्वीमणिवाद्यावृणीमहे एतविदुः सत्यवस्य विश्वे मित्रस्य मृदयवरुणस्य देवाः ैरवतो प्रोदधाद्रवीरम् चेत्रमस्मे सविदा पश्चातात् सविदा पुरसात् सवितोत्तरात् सविदा भरात्तात् सविदा सुवतु सर्वदाम् सविता नो रासदा दीर्घमायोः चक्षसे मनो देवाय धृतम् स पर्यत दूरे देवजाताय केतवे देवस्पुत्राय सूर्यायसंतो विश्वा मन्यपि स तेजते जाति विश्वाहो दे विश्वाहो देतिसूजाः देव प्रतिभो निवास तेजते दसेभितरैरधर्यसि प्राचीन मन्यतनु वर्ततेरौरन्ये न ज्योतिरा ते ज्योतिरानुश्वामनि रामनाहुदिमपामिष्वम् स्वेतिरयम् दक्षरसि स्वधानु यदद्यत्वाद्रवामहे तन्नो देवानोरक्रुम् वा पृथिवीरन्नापैन्द्रशृङ्गन्तु मरुतो हवः मारु मे भूमसूरस्य संस्कृति भद्रम् जीवन्तौ च रामधीमहि ुरक्षणसप्रो अनदीवानागतः उद्यन्तमहो दिवे दीवेजो दीवा प्रदीपस्येमसूर्या अयञ्च दर्भिभ्रानन्दा विलक्षणः स्वम् चक्रुभे चक्रुदेवयाः ृगणः पायसत्वयम् जीवा प्रदीपस्येव सूर्या यस्य देवि स्वाभुवानानि केतुना प्रदेशेन च विषम्बे अत्रुभिः अनाभाेन हरिकेशसूर्याह्नाह्नारोस्य शावस्य शोधीः नुदासम् हिमासम् घृणेन तत्सूर्यद्रवीनम् देहजत्रम् अस्माकम् देवा उभया यजन्माने धर्म यच्छ तद्धिमते च दुष्मते स्मै संयोपोदधातन यद्वो देवाश्रह्मजिपुरा गुरुवनशोभा प्रयोति देवहेनाम् अपरायो नो अभिरुत्सुन्दरे नो बसबोद अस्मिन्ना अस्मिन्न इन्द्र गच्छावो रादृषिरेषु खादिषु विश्वत्मनम् विद्यवोके सदा शृण्वन्तम् सदनेभ्योऽगोऽभिमिन्द्रस्रवायम् र्यो महापुरुष्टुरादे वयन्द्रयुधेतिके सति अस्माभिरः संसत्र वस्त्वया वयम् सङ्ग्रमे ेभिश्च भूरिभिर्यो अधीये वरि भोविन्द्रे संविखाते गित्वा नरभवारमिन्द्रमव सेवनामहे स्ववृषम् जित्वारविन्द्रवानाम् धिगागरिमुत्त्वान्मुष्कयोद्वासीनादो दोरामुदा सोभव्यम् भवामहे भागम् क्रे गतन्नाश्विसो मन्नकारम् अधवत् सुरस्कृतम् अमादिरश्चिद् भवतो युवम् भगवनातो अनन्दस्य चिह्नादत्या ऋतस्य चिज्जुवादस्यचित् जीवानम् धनगङ्गधारथम् पुनर्जुवानम् जरसायक्षौ ग्रमो रजुरभस्त्वविश्वेतावान् वा प्रवाच्या पुराम् वीर्या चने सोभासर्भिरमजोभुपानम् व्यापवा सेकरामहेयम्ना सत्याश्रधनिर्यथाकथत्